हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे अष्ट नवतितमः सर्गः अङ्गदेन महापार्श्वस्य वध महोदरे तु निहते महापार्श्व महाबलः सुग्रीवेण समीक्षाथ क्रोधातुं रक्तलोचनः अङ्गदस्य च शोभया मास मार्गणैः स वानराणां मुख्यानाम् उत्तमाङ्गानि राक्षसः पातया मास कायेभ्यः फलं वृन्तादिव निरः केषाञ्चिदिशुभि बाहून् चिच्छेदाख स राक्षसः वानराणां सु सौरब्ध पाशं केषाञ्चिदाक्षिपयेत् तेर्दिता बाणवर्षेण महापार्श्वे न वानरः विषाद विमुखा सर्वे उर्गत चेतसः निशम्य बलमुद्वेग्नम् अङ्गदो राक्षसाधितं वेगं चक्रे महावेग समुद्र इव पर्वशु आयसम् परिघं गृह्य सूर्यरश्मि समप्रभं समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् सतूतेन प्रहारेण महापार्श्व विचेतनः सूतश्चन्दनात् तस्मात् विसन्यश्चाप तद्भुवि तस्य वृक्षराज तेजस्वी नीलाञ्जन च योपमः निष्पत्य सुमहावीर्य स्वयूथन् मेघसन्दिभत् प्रगृह्य गिरिशृङ्गाभाम् क्रुद स विपुलाम शिलांज स्यनम चम भूता महापारश्व महाबल अंगदम बुभि बाणे भूयस्तम विध्यत जांबव तम त्रिवे बाणे राजन स्तना रक्षराजम् गवाक्षम् च जघानाम्बुभीषरै गवाक्षम् जाम्बवन्तं च स दृष्ट्वा शरपीडितौ जग्राह परिघम् घोरम् अङ्गदय क्रोधमूर्छित तस्याङ्गद सर्वशाक्षो राक्षसस्य तमायसं दूरस्थितस्य परिघम् प्रविरश्मि समप्रभम् भूयाभ्या्य भ्रमित वेगव महापार्शस्तिक्षेप वहां वाली न सुत स सतुक्षिप्तो क्षिप्त बलवताेग तस् रक्षत धनु सचरम हस्ता शिस्साण पात तम सद्य वेगेन लिपुत्र प्रतापवान् तलेनाभ्यत् क्रुद्ध कर्णमूले सकुण्डले स तु क्रुद्धो महा वेगो महापाशो महाद्युतिः करेणैकेन जग्राहे सुमहान्तं परश्वलधौतम् विमलम् शैलसाधमयम् दृणम् रक्षस परम क्रुद्धो ली पुत्रे निपातयेत् तेन वामां सफलके बृहम् प्रत्येव पातितम् अङ्गदो मोक्षयामासे सर्वषे स सर परश्वरम् सर्वीरो वज्रसङ्काशम् अङ्गदो संवर्तय सुसंगृद्ध पितुल्य पराक्रमः राक्षसस्य स्तनाभ्यासे मर्मज्ञो हृदयं प्रति इन्द्राशिनी समस्पर्शम् स मुष्टिं निपातयत् तेन तस्य निपातेन राक्षसस्य महामृधे पफाल हृदयं चास्य स पपात हतो भुवि तस्मिन् विनीहते भूमौ तत्सैन्यं तन्त चक्षुभे अभवच्च महान् क्रोध समरे रावणस्य तु वानराणाम् प्रवृष्टानाम् किंहनाद सुपुष्कलहे स्फोटयन्निव शब्देन लङ्कां साट्टाद गोपुराम् सहेन्द्रेणैव देवानाम् नादः स म भवन्महन् अथेन्द्रशत्रुश्रिदशादयानाम् वनौकसाम् चैव महाप्रणादम् श्रुता स पुनश्च युद्धाभिमुखो वतस्थे इत्याख्ये श्रीमद् रामायणे वाल्मीकी अधिका वे युद्धकाण्डे अच्चनवतीतमः सर्ग श्री सीतारामचन्द्रार्पणमस्तु